नमो नमः एतावता अस्माकम् अध्ययने केवलं एकवचनं बहुवचनं च उपलक्षितम् किन्तु इदानीम् इदानीं द्विवचनमपि अन्तर्भूतमस्ति तु तदाधारेण अस्माभिः द्रष्टव्यं देवशब्दः कोऽपि वदति वा देवौ देवान् देवेभ्यो देवेभ्योः देवेभ्यः देवेषु देवौ, देवौ, देवाभ्याम, देवाय देवाभ्याम, देवेभ्यः Indonesia Devād devābhyām Deve pyā devasyā deva yo ho devānam Deve devayoh enhut Z reform what do you want? Pāparasunamę what do you want? deva o deva o deva devam deva devān devena deva bhyām devayti devāya देवाभ्याम देवेभ्यः देवात् देवाभ्याम देवेभिः देवस्य देवयोः दे देवानाम् देवे देव देवयोः देरेषः हम्म सुमित कहिनी बोलतीवा देवः देवौ विपाक देवम् देवौ देवान दिवे दिवेना देवाभ्यां देवेषु देवा <laughs> <laughs> <laughs> समीचीनं देवानां भ्याम् <ísim> <Christopher> <conferIFORASSF organizational> <sa> <Brother> <soncion> दे, देवात देवात देवाभ्याम दे, दे, दे, देवा, दे देवयोः देवानां अस्ति एकवचने द्वि प्रथमाविभक्तिः द्वितीयाविभक्तिः तत्र भेदः अस्ति अनन्तरं तृतीयाविभक्तितः सप्तमर्यन्तं भेदः नास्ति देवः केवलं वनं वने वनानि वनं वने वनानि अनन्तरं समानमेव ेव देवौ देवं देवौ देवा देवाभ्यां देवाय देवस्वयो देवानां देवे देवयो देवेषु किञ्चित् समीचीनम् अस्तु वर्षाणि बहु स्मयः जातः बहु विस्मयः जातः अस्तु इदानीम् अस्माभिः किं कृतं देवशब्दः अग्रिमस्य उत्पानं किं पुरुषः बालकः एवमेव भवति किन्तु पदं भिन्नं तावदेव अस्तु पुरुषः वदतु एकम् अहं वदामि इदानीं यदि पदे भ्याम् बालकैः बालकाय बालकाभ्याम् बालकेभ्यः बालकात् बालकाभ्याम् बालकेभ्यः बालकस्य बालकौ बालकयोः बालकयोः बालकानां अस्ति अस्तु अजः अजो अजः अजम् अजो अजम् अजेन अजभ्याम् अजैः अजाय अजभ्याम् अजेभ्यः अजेभ्यः अजभ्याम् अजय अजेभ्यः अजस्य अजभ्याम् अजय अजयोः अजय् अजस्य अजयोः अजानाम् अजे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 अस्तु स्ने श्वः पुनः हस्वः अश्वौ अश्वन ጤፈገው ጤፍ ḥጤፈግ plex toolkit សፍብጧጥኞዞጥ � Godzilla ჩ ዥጃዻያባ აቃገጥቅ აቃጇ ლጃጨጥዞ ḥ លደሦዎᅥ ភ� illumlen ናᔧለጥቀጥ ឦማጥ სፈቅች समीचीनम् कथमस्ति भगिनि भवती वदति वा देवः जानाति वा अस्तु इदानीं स्यूतः वा ूतौ स्यूतान् स्यूतेन स्यूतेभ्यां स्यूताभ्यां स्यूतैः स्यूतया स्यूताय स्यूताय स्यूताय स्यूताभ्यां स्यूतः स्यूतात् स्यूततः स्यूतात् स्यूताभ्यां स्यूतेभ्यः गजाभ्यां गजैः गजाय गजाभ्यां गजेभ्यः गजान् गजाभ्यां गजेभ्यः गजस्यः गजयोः गजानां गजे, गजा गजे गजा गजयोः गजेषु गजे अस्तु गजेषु इदानीं द्विवाचनं बहु सुलभम् अस्ति पुल्लिङ्गे बहु सुलभम् अस्ति केवलं रूपत्रयमस्ति गजः अस्ति गजौ गजौ गजाभ्यां गजाभ्यां गजाभ्यां गजयोः गजयोः बालकः बालकौ बालकौ बालकाभ्यां बालकाभ्यां बालकाभ्यां बालकयोः बालकयोः इत्येव अस्ति अस्तु द्विवर्षं किं स्वीकुर्मः तर्हि चमसः द्विवचने चमसः चमसौ चमसौ चमसाभ्यां चमसाभ्यां चमसाभ्यां चमसयोः चमसयोः चमसयोः चमसयोः अस्तु अनन्तरम् अध्यापकः अध्यापकौ अध्यापकौ अस्माकम् एकः नियमः आसीत् यत्र रणकारः ऋकारः अथवा षकारः अस्ति अनन्तरं नकारः अस्ति चेत् नकारस्य रणत्वं भवति णकारः भवति अतः यत्र पदे षकारः अस्ति चेत् णकारः भवति वचनेषु अन्य नियमः अस्ति यदि अक्षरं पदस्य अन्तिमम् अक्षरम् अस्ति तर्हि तत्र हलन्तरम् अकारः पूर्ण अक्षरमस्ति चेत् तर्हि णत्वं भवति किन्तु हलन् अस्ति अस्ति चेत् तर्हि न तु न भवति अवगच्छति वा हा तत् नकारः कुत्र भवति इति स्मरणमस्ति वा अवगच्छति उदाहरणार्थं वनमिति अस्य बहुवचनरूपं किं वनानि हा वनानि इति हा किन्तु पुष्पं तत्र ष इति अस्ति अतः यथा वनानि पुष्पाणि इति अस्ति तु अत्र यत्र षकारः ऋकारः रेकारः अस्ति तत्र नकारस्य र इति भवति किन्तु यदि यदि पदस्य अन्तिममक्षरं तदेव सः एव नकारः तर्हि न भवति परिवर्तनं न भवति अन्तिमम् अक्षरम् अन्तिमं अत्र पुष्पाणि तत्र अन्तिममक्षरं किम् ई पुष्पाणि इ ई इति अस्ति अतः परिवर्तनं भवति यतोहि न इति अन्तिमम् अक्षरं न ई इति अन्तिमम् अक्षरमस्ति अवगच्छति इति लिखतु देवेन इति अत्र देवेन इति वदामः खलु देवेन अत्र अकारः यद्यपि वयं न लिखामः तथापि अस्ति देवेन अत्र अकारः अस्ति वा देवान् नास्ति खलु अत्र देवान् एतदस्ति हलन् अतः अकारः नास्ति अत्र अन्तिमम् अक्षरं किम् इत्यस्मिन् शब्दे अन्तिमम् अक्षरं किम् अ इति अन्तिमम् अक्षरम् अस्ति अकारः अत्र देवान् इत्यस्मिन् शब्दे अन्तिमम् अक्षरं किम् इति अस्ति न, न, न इति अस्ति अत्र यदि देवेन इत्यस्मिन् नकारः यत् अस्ति हा शक्नोति हा नकारः यत् अस्ति यः नकारः तस्मात् पूर्वं रणकारः ऋकारः ऋकारः अथवा ष श्र, कृष्ण षकारः अस्ति अस्मिन् पदे यदि भवति तर्हि णकारस्य णत्वं भवति किन्तु देवान् इत्यस्मिन् पदे यदि तस्मात् पूर्वं ऋकारः ऋकारः षकारः अस्ति तर्हि णकारस्य णत्वं न भवति अवगच्छति वा इदानीं स्पष्टं हा अस्तु किन्तु अत्र अन्तिममक्षरं न परिवर्तनं न भवति अस्तु तर्हि इदानीं पुरुषः इति वदतु खलु अवगसति वा प्रश्नः अस्ति वा महोदय प्रश्नः अस्ति वा मैनर् प्रश्न प्रश्न अस्ति अक्षरम् इत्युक्ते लेटर् अस्ति हा तर्हि न लेटलु भवान् अत्र नकारः अस्ति किन्तु पुरुषेण पुरुषाभ्यां पुरुषैः पुरुषाय पुरुषाभ्यां पुरुषेभ्यः अस्तु इदानीं कः वदति भवान् य वृक्षाभ्याम् वृक्षेभ्यः वृक्षात् वृक्षाभ्याम्भ्यः वृक्षश्च वृक्षाणाम् वृक्षे वृक्षैः वृक्षेषु वृक्षयोः वृक्षेषु हा अत्र तृतीयविभक्ति एकवचने षष्ठिविभक्ति बहुवचने तत्र सावधानम् अपेक्षितं नकारः अस्ति ऋकारः षकारः कारः अस्ति चेत् णकारः भवति द्वितीयविभक्तिः बहुवचने एवं न भवति देवान् पुरुषान् वृक्षान् अन्तिमध्वनिः नास्ति अतः परिवर्तनं भवति यथा देवेन अत्र इति मकारः अन्तिमध्वे अस्माकं चिन्ता नास्ति अस्माकं चिन्ता कुत्र नकारः नियमः कः नकारस्य अत्र ष इति अस्ति अतः नकारस्य अण भवति किमर्थम् इत्युक्ते अण इत्यस्य अनन्तरम् अकारः अस्ति किन्तु वृक्षेण किन्तु अत्र यदि लिखामः वृक्षान् इति भवति द्वितीया विभक्ति बहुवचने वृक्षान् सर्वे अवगच्छन्ति बहु महत्त्वपूर्ण बिन्दुः अस्ति अस्तु